थ्वेदे प्रथमाष्टके अष्टमोऽध्यायः ओ, ओ, ओ इदम् श्रेष्ठञ्ज्योतिषाञ्ज्योतिरागाच्चित्रः प्रचेतो अजनिष्टविभ्य यथा प्रसूतासवितुः समायम् एवारात्रिषसेयोनिवारैक त्रिषद्वत्सारिषतीश्वेत्यागादारैककृष्णा सदनान्यस्याः समानमन्धो अमृते अनोचीद्या वा वर्णम् जलत आमिनाने समानो अध्वास्वस्रोरनन्दस्थमन्यान्या जलतो देवशिष्टे न मेथे तेन तस्थतु सुमे येन तोषासा समनसाविरूपे भास्वति नेत्री सोदृता नाम न ना आवह प्राप्याय गभ्यो राजो अक्षदुषा अजि गर्भुवनानि विश्वा जिह्मस्ये एचरितवे मघोन्या भोगय इष्टये राज उत्तम् दभ्रम्भस्यभ्य उर्भ्य विचक्षदुषा अजि गर्भुवनानि विश्वा कर्त्राय त्वम् श्रवसे त्वम् महीया इष्टये त्वमर्थमिव त्वमित्यै विसदृशा जीविताभिप्रचक्ष उषा अजीगर्भुवनानि विश्वा एषा दिवो दुहिता प्रत्यदर्शिम् युच्छन्ति युवतिः शुक्रवासाः विश्वस्येषा नापार्थिवस्य वः स्वषो अद्येह सुभगेव्युच्छ परायतीनामन्वेतिपाथ आयतीनाम् प्रथमा शश्वतीनाम् युच्छन्ते जीवमुदीरयन् युषामृतम् कञ्चन बोधयन्ति पुषो यकर्थवि यदा वश्चक्षसा सूर्यस्य यन्मानुषान्यक्ष्यमाणाङ्मयीगस्तद्देवेषु चकृषे भद्रमप्नाः कियात्या यत्समया भवाति याभ्योषुर्याश्च नूनम् युच्छान् अनुपूर्वाः कृपते वावशाना प्रतीद्या नाजोषमन्याभिरेति ये युष्टेले पूर्वतरामपश्यन् यच्छन्ति मुषसम्मर्त्या सह अस्माभिरोऽनुप्रतिदक्ष्या भूदो ते यन्ति ये अपरेषु पश्यान् यावय द्वेषातपाया सुम् नावरीः स्वमङ्गलैरभिघ्रती देववीतिमिहाद्योष श्रेष्ठतमा व्युच्छ शश्वत्पुरोषा व्युवास देव्यथो अद्येतम् यावो मघोनि अथोव्युच्छादुत्तराङ्मनुद्यो न जरामृता चरति स्वथाभिः या अञ्जिभिर्दिव आता स्वद्यौदपकृष्णान्निर्नियम् देव्या प्रबोधयम् च ऋणेभिरश्वैरोषायाति सुयुदार्थेन आवहम् दीपोऽश्यावार्याणि चित्रम् केतुम् कृणुते चेकिताना ईयुषीणामुपमा शश्वतीनाम् विभातीनाम् प्रथमोषाव्यश्वैत उदीर्ध्वम् जीवो असुन्न आघादपप्राघात्तम आ ज्योतिरेति आरैः पन्थाञ्जातवे सूर्यायागन्मयत्र प्रतिरन्त आयुः स्योमनावाच उदियर्तिमन् ह्यस्तवा उषसो विभाति अद्या तदुच्छकृते मघोन्यस्मे आयुर्निति देहि प्रजावत् या गोमतिरुषसः सर्ववीराभ्युच्छन्ति दाशुषे मर्त्याय वायोरिवसूनृता नामुदर्केता अश्वदा अश्नवत्सो मातादेवा सुत्वा माता देवानामदितेरनीकम् के यज्ञस्य केतुर्बृहति विभाहि प्रशस्त्यकृद्ब्रह्मणे नोऽव्यूच्छानो जने जनय विश्ववारे यच्चित्रवप्रशसो वहन् यीजानाय भद्रम् कर्णो मित्रो वरुणो मा महन्ता मदितिः सिन्धुः पृथिवी उदद्योः इमा रुद्राय समसे कपर्दिने क्षयद्वी राजप्रभरामहेमतीः यथा शमसद्विपदे चतुष्पदे विश्वम् दृष्टम् ग्रामे अस्मिन्ननातुरम् मृडानो रुद्रोत नो यच्छञ्चयोश्च मनुराये जे पिता तदश्याम तव रुद्रप्रणीतिषु अश्यामते सुमतिन्दे एव यज्ञया अक्षयद्वीरस्य तव रुद्रमीढ्वः सुम्नायन्निद्विषो अस्माकमाचरारिष्टवीराजुहवामदेहमिः पेषम् वयम् रुद्रयज्ञसाधम् मङ्कुङ्कमिमवसे निह्वयामहे आरे अस्यतु अस्य तु सुमरिद्वयमस्यावृणीमहे दिवोपराहमरुषङ्कपर्दिनम् तेषम् रूपम् नमसानिह्वयामहे हस्तेऽपिभ्रद्धे शजावार्याणिशर्मवर्मच्छर्दिरस्मभ्यञसत् इदम् पित्रे मरुतामुच्यते वचः स्वादो स्वादीयो रुद्राजवर्धनम् स्वाचनोऽमृतवृत्तभोजनन्मने तोकायतनयाजमृळ मानोः महान्तमुतमानो अर्भकम् मान उक्षन्तमुतमान उक्षितम् मानो, मानो, उक्षन्त मानो वधेः पितरम् मोत मातरं मानः प्रिया स्तम्बो रुद्ररीरिषः मानस्तोकेतनये मान आयौ मानो अश्वे मानो अश्वेषुरीरिषः वीरान्मानो रुद्रभामितो बधेरहविष्मन्तः समित्रा हवामहे उपते स्तोमान् पशुपा इवाकरम् रास्वापितर्मरुताम् सुम्नमस्मे भद्राहिते सुमतिर्मृणयत्तमाथा वयमवैत्ते वृणीमहे आरेते गोघ्रमुतपूरुषघ्रङ्क्षयद्वीरसुम्नमस्मे ते, ते, आरे ते, ते अस्तु मृळाच नो अधि च ब्रूहि देवाधा च नः शर्म यच्छद्विवर्हाः अवोचामनमोः अस्मावस्यवशृणोतु तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्योः चित्रम् देवानामुदगादनी कञ्चक्षुर्मित्रस्य आप्राद्यावापृथिवीरन्तरिक्षम् सूर्य आत्मा जगतस्तस्थुषश्च सूर्यो देवीमुष संरोचमानाम् मर्यो न योषामभ्येति पश्चात् यत्रा नरो देभयन्तो युगानि वितन्वते प्रतिभद्राय भद्रम् भद्रा अश्वा सूर्यस्य चित्रा एतग्वा अनुमाद्या सह नमस्यन्तो दिवः पृष्ठनस्थुः परिद्यावाः पृथिवीयन्ति सद्यः तत्सूर्यस्य देवत्तम् तन्महित्तम् मध्याकर्तोतम् सञ्जभार यदेतयुक्तहरितः सधस्थादाद्रात्रीवासस्तनुते सिमस्मैः तन्मित्रस्य वरुणस्याभिचक्षे सूर्यो रूपम् कृणुतेद्योरुपस्थे अनन्तमन्यदृश तस्य पाजः कृष्णमन्यद्धरितः सम्भरन्ति अद्यादे एव उदिता सूर्यस्य निरम्हसः पिपृता निरवद्यात् तन्नो मित्रो वरुणो मामहन्तमदितिः सिन्धुः पृथिवी उदद्योः नासत्याभ्याम् बर्हिरिवप्रवृन्दे सोमाङ्गिय्यभ्रिये एव माताः भगाय विमदाय जा जा जा जा से जायांसे एनाजुवान्योहदूरथेनाराशु हेमभिर्वा देवानाम्बा ज्योतिभिः शाशदाना तद्रासभो ना सत्या सहस्रमाजायमस्य प्रथमे जिगाय तु ग्रोह भुज्युमश्विनोद मेघेरयिन्न कश्चिन्मृवाण् रात्मन्वती क्षकृद्भिरपोदकाभिः तिस्रः क्षपस्त्रिरहातिव्रजद्भिर्ना सत्या भुज्युमोहतुः पतङ्गैः समुद्रस्य धन्वन्नार्द्रस्य पारे त्रिभिरथैः श्रतवद्भिः शडश्वैः अनारम्भणे तदवीरजेथा मनास्थाने समुद्रे यदश्विना ओहथुर्भुज्युमस्तम् शतारित्रान्नाममातस्थिवांसम् यमश्विना ददथुश्वेतमश्वमघाश्वा यशश्वदि स्वस्ते तद्वान्तात्रम् महि कीर्तेऽन्यम् भोत्पैद्वो बाजे सदविद्धव्यो हर्यःरास्तु पते कारोतराक्षफादश्वस्य वृष्णः शतम् कुम्भाङ्किञ्जतम् सुरायाः हिमे नाग्रिङ्घ्रम् समवारयेथाम् पितुमदेवोर्जमस्माधत्तम् प्रपेशे अत्रिमश्विनावनीतमुन्निन्यः सर्वगणम् स्वस्ति परावतन्ना सत्यानुदेथामुच्चाबुद्धम् चक्रतुर्जिम् भवारम् रन्नापोनपाजनाय राजे सहस्राय दृश्यते गोतमस्य चतुर्षो नासत्योतपौरिम् प्रामुञ्जतन्द्रापि मिभत्यवानात प्रातिरतम् जहितस्यायुर्धस्रादिपतिमकृतम् कलीनाम् तद्वाहन्नराशंस्य प्राध्यन् चाभिष्टिमन्नासत्यावरोधम् यद्विद्वांस आनिधिविवापगोषमुदर्शतादूपथुर्वन्दनाय तद्वान्नरासनयेतम् स उग्रमाविष्कृणोमितन्यतुर्न वृष्टिम् दध्यम् हयन्वर्धा अथर्पणो वामश्वस्य श्रीकृष्णा प्रयती उवाच अजो हरीम्ना सत्याकरा वाम् श्रुतम् धृच्छासुरिपवध्रिपत्या हिरण्यहस्तमश्विनावदत्तम् आस्मो वृकस्य वर्तिकामभीके युवन्नराना सत्यामुक्तम् कुतो कविम् पुरुहुजा युवम् हर्ममाणमरुणुतम् विचक्षे चरित्रम्भिरेरिवाच्छेरिपर्णमाजाखेलस्य परितज्ञायाम् सद्यो जङ्घामायसीम् विश्पला आजैधनेः हिते सर्तवे प्रत्यधत्तम् शतम् येषाम् नृत्ये चक्षदानवृज्राश्वन्तम् पिता चकार तस्मासृत्या पि चक्षदाधत्तस्राभिषजामधर्वन् आवाम्रथम् दुहिता सूर्यस्य कार्ष्मेवातिष्ठधर्वता दयन्ती दे विश्वे देवा अन्वमन्यन्त हृद्भिः समुश्रियाना सत्या स चेथे यदया तन्दिवो दासाय वर्तिर्भरद्वाजायाश्विनाहयन्ता रेवधुवाहसरो रथो वामृषभश्च शिंसुमारश्च युक्ता रयिं स्वक्षत्रम् स्वपत्यमायुः सुवीर्यम् आसत्या वहन्ता आजह्नावीं समनसोपवाचैस्त्रिरह् भागम् दसते मतम् परिमिष्टम् जाहुषम् विभिन्दुना नासत्यारथे नविपर्वताम् अजरयूपजातम् एकस्यावस्तो रावतम् वृणाजभमश्विना सनयेः सहस्रा विरहतम् दुच्छुना इन्द्रवन्ता पृथुश्रवसो वृषणा वराहतीः शरस्य चिदार्चत्कस्याः पतादा नीचा दुच्चा पातवेवाः शजवे चिन्ना सत्याशचीभिर्जसुरजे स्तरियम् विप्यदुर्गाम् अवस्यते स्तुभते कृष्णीयाय ऋजूयते नाः सत्याशचीभिः पशुन्ननष्टनिपदर्शनाय विष्णाप्र्विश्वकाय दशरात्रेरशिवे नानवर्त्यो नवरथम् ना स्नमप्स्वा अनन्तः विप्लुतम् रेभमुदनि प्रवृत्तमुन्निन्यथः प्रवान्तम् सांस्यश्विनावोचमस्य पतिस्याम् सुगवः सुवीराः पश्यन्नश्नुवन् दीर्घमायुरस्तमिवेजरिमाणम् जगम्याम् मध्रसोमस्याश्विनामदाय प्रत्नो हो तामि वासतेवाम् बर्हिष्मतीरातिर्मिश्रिता गीर्षाया तन्ना सत्योपवाजैः यो वामश्विनामनसोऽजवी या नृथस्वश्वो विश आदिगाति येन गच्छथ सुकृतोणन्ते नरा वर्तिरस्मभ्यञ्जातम् ऋषिन्नराबह्मसः पाञ्चजन्यभृभी सादत्रिम् मुञ्चथो गणेन विनन्ता दस्यो ऋषिभस्य माया अनुपूर्वम् वृषणा चोदयन्ता अश्मन्न गूढमश्विना सन्तम् वृणेथोऽपिलुतन्दम् सोऽभिर्नवाञ्जोदयन्ति पूर्व्याकृतानि सुषुप्ताम् सन्ननिरृतेरुपस्थे सूर्यन्नदस्रातमशिक्षयन्तम् शुभे रुक्मन्नदर्शतम् निखातमुदोपधुरश्विनावन्दनाय तद्वान्नराशंस्यम् वज्रियेण कक्षेऽवताना सत्यापरिज्मन् शभादश्वस्य वाजिनो जनाय शतम् कुम्भाम् प्रसिञ्जतम् मधूनाम् युगन्धरास्तु पते पृष्ण्याय विष्णाप्रदथुर्विश्वकाय घोषाय चित्पितृषते धुरोणे परिञ्जोर्यन्या अश्विनावदत्तम् युवंश्यावाय प्रवाच्यम् तद्भृषणाकृतम् वाञन्नार्षदायश्रवो अर्ध्यत्रम् पुरोवर्पाम्विनादधानानि वेदव ऊहथु राशुमश्वम् सहस्रसाम् वाजिनमप्रतीतमहिहनम् श्रवस्या अन्तरुत्रम् एतानि वां श्रवस्या सुदानो ब्रह्माङ्गोषम् सदनम् रोदस्योः हम् भज्रासो अश्विनाहवम्षा च विदुषे च वाजनम् सो नोर्मारेनाश्विना गृणानावाजम् विप्राय भुरणालन्ता अगस्त्ये ब्रह्मणा वा वृथा रण्यस्येव तमुदोपदृदशमे अश्विनाहन् युवञ्चवानमश्विनाजलन्तुवानम् चक्रतुश्यतीभिः युवो रथम् गृहिता सूर्यस्य सह श्रियाना सत्या वृणीता युवम् तु ग्राय पूर्व्येभिरेवैः पुनर्मन्यापभवत युवाना युवम् भुज्युमर्णसोनिःसमुद्राद्दिभिरुहथुरुद्रेभिरश्वैः अजो अहवेदश्मिना तौ ग्रियो प्रौढः समुद्रजगन्वान् दिष्टमोऽहतुः सुयुजारथे स्वस्ति अजो अहवेदश्विना वृत्तिका वामा स्नो यच्छेममुञ्जतम् मृगस्य विजयुषाजुः सान्वद्रेर्जातम् विश्वाचो अहतम् शतम् येषान् वृक्ये मामहानन्तमः प्रणीतमशिवेन वित्रा आक्षे रुद्राश्वे अश्विनावधत्तम् ज्योतिरन्धाय चक्रतुर्विचक्षे शुनमन्धाय भरमह्व यत्सा वृकेरश्विना वृषणानरेति चारः कनीनदिव चक्षदानरुद्राश्वः शतमेकञ्चमेषान् मही थाः युवामिदह्वयत्पुरम् धिरागच्छतम् से मृषणा वभोभिः अथे एनन्दस्रा स्तर्या अम्बिषक्तामपि हिन्दतम् शयवे ए अश्विनागा युवम् सृजीभिर्विमदाय दादान्यो हतुः पुरुमित्रस्य जोषा यवम् प्रकेणाश्विनावपन्तेषन् दुहन्तामनुषाय दस्रा अभिरस्युम्बकुरेणाधमन्तोरुज्योतिश्चक्रथुरार्याय आथर्वणायाश्विना दधे चेश्वम् शिरः प्रत्ययै रयतम् स वा मधुप्रभो चरतायन्ताष्टम् यद्दस्रावपि कक्ष्यम् वाम् सदा कविसु मतिमाचके वाम् विश्वाधियोश्विनाप्रावतम् अस्मे रजिन्ना सत्या बृहन्तमपत्यसा तम् हिरण्यहस्तमश्विना रणा पुत्रावध्रिवर्त्या अदत्तम् त्रिधा हस्यावमश्विना विनस्तमुज्जीवस ऐरयतम् सुदानो एतानि वाम् रथो अश्विनाश्येन पत्पा सुमृळीकस्व वाङ्या त्वरुवाङ् यो भर्त्यस्य मनसो जवीयाम् त्रिमन्थुरो वृषणावातरम्भामन्थुरेण त्रिवृता त्रिचक्रेण सुमृतायातमर्वाक् पिन्वतङ्गाचिन्वतमर्वतो नो वर्धयतमश्विना प्रमद्यामना सुभृतारथे नदस्राः विमंशतं श्लोकमद्रेः इमङ्गवात्यवर्त्यङ्गमिष्ठाहुरुविप्रायासो अश्विनापुराजाः आवांश्येनासो अश्विना वहन्तु रथे युक्तास आशमः पतङ्गाः ये अब्दुरो दिव्यासो न गृध्राः अभिप्रयो ना सत्या आवाम्रथतिष्ठतक्रजुष्वेन राजुहिता सूर्यस्य परिवामश्वापुषः पतङ्गावयो वहन्तरुदा अभीके त्वद्वन्दनमैरदन्दम्सनाहाभिरुद्रे भन्दस्रा वृषणा युवम् कण्वायापि रिप्ताय चक्षुःप्रत्यधत्तम् सुष्ठुतिञ्जुलुषाणा युवन् धेनुम् शयवेनाधितायापिन्वतमश्विना पूर्व्याय अमुञ्जतम् वर्तिकामम् हसो निः प्रतिजङ्घाम् विश्वलाय अधत्तम् युवम् श्वेतम् वेदप इन्द्रजोतमहिहनमश्विना दत्तमश्वम् जोहोऽत्र मर्यो अभिभूतिमुग्रम् सहस्रसाम् स्ववसे सुमहे अश्विना नाधमानाः आन उपवसुमता रथेन गिरो जुषाणासु विताय जातम् आश्येनस्य जवसा नूतनेनास्मे यातन्ना सत्या स जोषाः हवेहि आवाम्रथम् गुरुमायम् रोजुवम् जीराश्मै यद्ययम् जीवते हुवे सहस्रकेतुम् मलिनम् शतब्हुं सृष्टिवानम् वरिबोधामभिप्रजाः ऊर्ध्वा देतिः प्रत्यस्य प्रजा आमन्यथा आदिशस्मन् समयन्त आदिशाः सुदा आमि कर्मम् संयन्विधः पस्प्रधा नासो अग्पदशुभे मखा अभितादायवोरणे युवो रः प्रवणे चेकिते रथो यदश्विनावहतः सूरिमावरम् युवम् भुज्युम्भुरमाणम्बिभिर्गतम् स्वयुक्तिभिर्निवहन्ता पितृभ्यः याशिष्टम् युवोरश्विनापुषे युवायुजम् रथम् वाणी ये मधुरस्य सध्यम् आवाहम्पतित्वम् सख्याय जग्मुषी योषा वृणीतजेऽन्याः युवाम् पतीः युवम् रेफम् परिशूतेरुरुष्यथो हिमेन खर्मम् परितत्तमत्रये युवम् शयोरवसम् पिप्रथुर्गविप्रदीर्घेण वन्दनस्तार्यायुषा युवम् वन्दनम् निरृतञ्जरण्थङ्गतस्राकरणा समिन्वथः क्षेत्रादा विप्रञ्जनथोऽपि पन्यजा प्रभामत्र विधते दंसनाभुवत् अगच्छतम् कृपमाणम् परापतिपितुस्वस्य तिजसा निबाधितम् स्वर्णतेरित ऊतेर्युवोरहचित्रा अभीके अभवन्नभिष्टयः उतस्या मधुमन्मक्षिकालपन्मते सोमस्य उशिजोः मन्यते युवम् दधेचो मन आवि वा सथोधा शिरः प्रतिभामश्वम् वदत् युवम् वेदवे पुरुवारमश्विना स्पृथा श्वेदन्तरुतारम् दुवस्यथः शर्यैरभिद्युम् पृतनासु दुष्टरम् चरकृत्यमिन्द्रमिव जर्षडी सहम् कारा दद्धोऽत्राश्विना विद्वांसा विद्दुरः पृच्छेद विद्वारित्थापरो अचेताः नो चिन्नुमर्ते अक्रौः ता विद्वांसा आहवामहे पान्तानो विद्वांसा मन्वोचेतमद्य प्रार्चयमानो युवागोः पृच्छामि वाक्याः आनदेवान्मषट्कृतस्यद्भुतस्य दस्रा पातम् च सह्यसो युवम् चरभ्यसो नः प्रजाघोषे भृगवाणेन शोभे यया वाचा यजति वज्रियो वाहम् प्रैषयुर्न विद्वान् श्रुतङ्गायत्रन्तकवानस्याहञ्चिद्धिरिरेभाश्विनावाम् आक्षे शुभस्पतीदन् युवम् ह्यास्तम् महोरन् युवम् वायन्निरतम् सतम् तानो वसुसु गोपा स्यातम् पातम् मा कस्मै धातमभ्यमित्रिणे मा पुत्रा नो गृहेभ्यो धेनवो गुः स्तनाभुजो दुहियं गृहीयन्मित्रधितये युवाकुराये च नोमि मी मीतम् वाजवत्यै इषे च नोमि मी मीतम् धेनुमत्यै अश्विनो रसनम्रथमनश्वम् वाजिनीवतोः तेनाहम् भूरि अयम् स महामातनो ह्याते सोमपेयम् सुखो रथाः अधः स्वप्नस्य निर्विरेभुञ्जतश्च रेवताः उभास्रि नश्यतः कदिपात्रम् रेवयताम् श्रवद्गिरो अङ्गिरसान्तुरण्यन् प्रयता नड्विषा हर्ण्यस्योरुक्रम् से अध्वरे यत्रः स्तम्भे यद्धत्याम् स धरुणम् वृषाय दृभुरुवाजाय द्रविणन्नरोगोः अनुस्वजाम्महिषश्च क्षतौ राम्मे नामश्वस्य परिमातरङ्गोः न क्षद्भवमरुणे पूर्व्यम् रार्तुरोविषामङ्गिरसामनुद्यो न तत् क्षद्वज्रन्नियुतम् तस्तम् दुष्पदे नर्यायद्विपादे अस्य मदे स्वर्यन्दातायामीः यद्ध प्रसर्गे त्रिटपुम् निवर्ततपद्रुहो मानुषस्य दुरो वः तुभ्यम् सिद्धा यद्वरधितिरपश्चात्सूरोः अद्भरे परिरोधनागोः यद्धप्रभाजिकृत्याद्यो न निर्विशे पश्विषे हेतुराय अष्टामहो निव आदो हरेः इहद्युम् नासाहमभियोः धार त्ते मन्दिरम् दुःखन् वृथे गौरभसमद्रिभिर्वादाप्यम्प्रतिवर्तयोगो दिवो अश्मानमुपनीत बृभ्रा उत्साय यत्र पुरुहूतमन्वञ्चुष्णमनन्तैः परियासि मदैः पुरायत्सो रस्तमसो अपितेस्तमद्रिमठलिकम् हेतिमस्य शुष्णस्य चित्परि हित्यो अनुत्वा महीपायशीलचक्रेद्यावाक्षामा मदतामिन्द्र कर्मन् त्वम् वृत्रमाशयाहनम् शिरासु महोद्रेण सिष्वपो बराहुम् त्वमिन्द्रदर्योयाङ्गवोग्रन् निष्ठावादस्य सुयुजो बहिष्ठान यन्ते एकाव्यशनाः मन्दिनन्दाद्वृत्रहणम् पार्यन्तदक्षवज्रम् त्वम् सूरोः हरितो रामयो नृन् हरच्चक्रमेतशो नायमिन्द्र प्रास्य पारन्नवतिन्नाव्यानामपि कर्तमावर्तयो यज्योन तन्नो अस्या इन्द्रदुर्हणायाः पाहि वज्रिवो दुरितादभीके त्रोपाया नृध्योऽ अश्वबुद्ध्याधिषेयन्धि श्रवसे सूनृतायै मासादेः अस्मत्सुमतिर्मिदसर्वादप्रमहसमिषो भरन्त आनो भजमघमङ्गोश्वर्यो मम्भिष्ठास्ते स धमादस्यामा इति प्रथमाष्टके अष्टमोऽध्यायः